अथाष्टात्रिंशः सर्गः तस्याम् चीरम् वसानायाम् नाथवत्यामनाथवत् प्रचक्रोशजनः सर्वोऽधिक्त्वाम् दशरथम् त्विति तेन तत्त्वप्रणादेन दुःखितः समहीपतिः चिच्छेदजीविते श्रद्धाम् धर्मे यशसि चात्मनः स निश्वस्योष्टमैक्ष्वाकस्ताम् कैकेयिकुशचीरेण न सीता गन्तुमर्हति सुकुमारी च बाला च सततम् च सुखोचिता नेयं वनस्य योग्येति सत्यमाह गुरुर्ममा इयम् हि कस्यापि करोति किञ्चित्तपस्विनी राजवरस्य पुत्री या चीरमासाद्यजनस्य मध्ये स्थिताविदम् ज्ञाश्रवणीव काचित् चीराण्यपा स्याज्जनकस्य कन्यानेयम् प्रतिज्ञाममदत्तपूर्वा यथा सुखम् गच्छतु राजपुत्री वनम् समग्रा सह सर्वरत्नैः अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञानियमेन तावत् त्वया हि बाल्यात् प्रतिपन्नमेतन्मादहेद्वेणमिवात्मपुष्पम् रामेण यदि ते पापे किञ्चित्कृतमशोभनम् अपकारः क इह ते वैदेह्यादर्शितोऽधमे मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी अपकारम् कमिव ते करोति जनकात्मजा ननु पर्याप्तमेवम् ते पापे रामविवासनम् किमेभिः कृपणैर्भूयः पातकैरपि ते प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता रामम् यदभिषेकाय त्वमिहागतमब्रवीः त्वे तत्समतिक्रम्य निरयम् गन्तुमिच्छसि मैथिलीमपि याहि त्वमीक्षसे चीरवासिनी एवम् ब्रुवन्तम् पितरम् इयम् धार्मिककौसल्या मम माता यशस्विनी वृद्धा चा क्षुद्रशीला च न च त्वाम् मया विहीनाम् वरद प्रपन्नाम् शोकसागरम् अदृष्टपूर्वव्यसनाम् भूयः सम्मन्तुमर्हसि यथा नर्चे पूज्येन पूजिता माम् हि सञ्चिन्तयन्ती सा त्वयि जीवेत्तपस्विनी महेन्द्रोपमजातगर्धिनीम् तथा विधातुम् जननीम् ममार्हसि यथा वनस्थे मयि शोककर्षिता न जीवितम् यस्य यमक्षयम् व्रजेत् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टात्रिंशत्